नमस्सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति वर्गे भवतां सर्वेषां स्वागतम् अत्र भक्तिः इत्यस्मिन् विषये किञ्चित् वक्तुम् इच्छामि इत्युक्ते अत्र साधकस्य जीवने भक्तिः इति बहु मुख्यः विषयः अस्ति भक्तिः सा यः साधकः भक्तः नास्ति तर्हि तस्य मनः जडभूमिः इव भवति इत्युक्ते भक्तिः विना भगवतः प्राप्तिः न शक्यते यस्य कस्यापि मनुष्यस्य जीवने भक्तिः नास्ति तर्हि जीवनं झडभूमि भवति तर्हि इदानीं प्रश्नः अस्ति अहं भक्तः अस्मि वा भक्ता इति कथं ज्ञातुं शक्नुमः वास्तविकतया अहं भक्तः अस्मि वा इति कथं ज्ञातुं शक्नुमः केवलम् अहं भक्तः अस्मि इति वदामः चेत् पर्याप्तं वा इत्युक्ते सर्वे चिन्तयन्ति अहं भक्तः अस्मि अहं भक्ता अस्मि इति चिन्तयन्ति परन्तु वास्तविकतया वयं भक्ताः वा इति प्रश्नः आयाति तर्हि कथं वयं परीक्ष परीक्ष परीक्षयितुं भक्तः अस्मि वा न वा इति वास्तविकपरिस्थितिः का इति कथं ज्ञातुं शक्नुमः इत्युक्ते इयं या परीक्षा वर्तते तादृशी परीक्षा इदानीं न क्रियते अन्ततो गत्वा यदा अस्माकं जीवनस्य अन्तिमस्तरे अन्तिमचरणे यदा वयम् एतादृशविषयस्य अन्वेषणं कुर्मः तदानीं तत्र क्लेशः एव भवति तस्य परिष्कारः न शक्यते अन्तिमक्षणे जीवनस्य अन्तिमक्षणे एतादृशपरीक्षणेन न कोऽपि लाभः तर्हि इदानीमेव अस्माभिः अवगन्तव्यं भक्तः नाम कः इति वास्तविकतया मम हृदि भक्तिः अस्ति वा न परमपुरुषस्य कृते मम हृदि भक्तिः अस्ति वा न वा इति प्रश्नः आयाति इत्युक्ते तस्य कृते बाह्य कोऽपि बाह्यमनुष्यः यः अस्ति तेन तस्य निर्णयः तेन न कर्तुं शक्यते इत्युक्ते बाह्यजगति अन्यत्र न्यायालये न्यायाधीशः तस्य समाधानं कर्तुं न शक्नोति इत्युक्ते वयं स्वयं स्वयं परीक्षयितुं शक्नुमः इत्युक्ते अन्यस्य आवश्यकता नास्ति वयं स्वयं परीक्षणं कर्तुं शक्नुमः एतत्तु स्वयम् अस्माकम् अनुभवः अस्ति मुक्त्यर्थं तर्हि वयं पश्यामः अहं वास्तविकतया भक्तः अस्मि भक्तः अस्मि इति कथं ज्ञातुं शक्नुमः भक्तिः इत्युक्ते परमपुरुषस्य कृते या प्रीतिः वर्तते या यद् आकर्षणं वर्तते तदेव वयं प्रेमा प्रेम इति वयं वदामः प्रेमः भक्तिः इत्युक्ते भक्तिः इत्युक्ते प्रेमरूपा प्रेमस्वरूपिणी भक्तिः प्रेमस्वरूपिणी इत्युक्ते प्रेम इत्युक्ते जगति यद् यद् अस्ति तस्य कृते अपि प्रेम अस्ति वा इति तत्तु तत्तु वास्तविकतया प्रेमा नास्ति प्रेम इत्युक्ते परमा परमाकाष्ठा परमाकाष्ठा प्रीतिः सा प्रीतिः एव भक्तिः इति वयं वदामः सा प्रीतिः तादृशी प्रेम तादृशी प्रेम अस्माकं हृदि वर्तते वा इति प्रश्नः अस्ति तादृशी प्रीतिः अस्माकं हृदि वर्तते वा मया उक्तं भक्तिः प्रेमस्वरूपिणी इति उक्तं तादृशी प्रेमस्वरूपं वयं प्रेमस्वरूपाः वा इति प्रश्नः आयाति तर्हि अस्माकं हृदि परमपुरुषस्य कृति कृते या प्रीतिः वर्तते तस्य मापनं कथं कर्तुं शक्नुमः वास्तविकतया यद् इत्युक्ते अस्माकं लौकिकजीवने अस्माकं माता अस्ति पिता अस्ति पुत्रः अस्ति तदानीं वयं वदामः ओहो मम मातरं प्रति मम बहु प्रीतिः वर्तते मम पुत्रं प्रति बहु प्रीतिः वर्तते इति एवं वयं वदामः तर्हि इदानीं परमात्मन परमात्मानं प्रति साधकस्य प्रीतिः प्रीतेः मापनं कथं कर्तुं शक्यते तस्य सुलभः उपायः कः तस्य मापनार्थम् इत्युक्ते वयं पश्यामः चेत् यत्र सः अस्ति तत्र अस्माकम् अहम्भावः न भवति यत्र सः अस्ति तत्र अस्माकम् अहम्भावः न भवति यत्र अहम्भावः अस्ति तत्र सः नास्ति इति अत्र सुलभः उपायः अस्ति इत्युक्ते वयं स्वयमेव परीक्षणं कर्तुं शक्नुमः तदा यदा अस्माकम् अहम्भावः बहिः आयाति तदानीं वयमवगन्तुं शक्नुमः अस्माकं हृदि भक्तिः नास्ति इति वास्तविकभक्तिः नास्ति इति इत्युक्ते तथा कथिता तथा कथिता भक्तिः भवितुम् अर्हति परन्तु वास्तविकभक्तिः कदा भवति यदा अस्माकं हृदि अस्माकं नास्ति तदानीमेव परमपुरुषः तत्र भवति इत्युक्ते भक्तिः एव वास्तविकतया तत्र मोक्षस्य सामग्री अस्ति भक्तिः इत्युक्ते अत्र शङ्कराचार्यः अपि ज्ञानी आसीत् ज्ञानी आसीत् तत्र ज्ञानस्य प्राधान्यं तेन दीयते परन्तु तेनापि उक्तं मोक्षकारणसामग्र्यां भक्तिरेव गरी असि इति तेनापि उक्तम् इत्युक्ते मोक्षकारणसामग्र्यां मोक्षस्य कारणं यानि कारणानि सन्ति कारणसामग्री या सामग्री वर्तते कारणसामग्र्यां भक्तिः एव गरी अस्ति भक्तिः एव श्रेष्ठा इति तेनापि अङ्गीकृतमस्ति तेनापि अङ्गीकृतं भक्तिः साधकस्य जीवने भक्तिः बहु विशिष्टा वर्तते इत्युक्ते य यः ज्ञानी आसीत् तेनापि अङ्गीकृतं यत् भक्तिः बहु विशिष्टा वर्तते बहु मुख्या अस्ति तर्हि भक्तिः अस्माकं प्रति भक्तिः वर्तते वा परम परमात्मानं प्रति भक्तिः वर्तते वा इति कथं जानीमः इति चेत् बहु सुलभः उपायः अस्ति यत्र अहं भावः अहङ्कारः वर्तते तत्र परमपुरुषः नास्ति यत्र अहम् अहं भावः नास्ति तत्र परमपुरुषः अस्ति तर्हि किम् अवगन्तव्यम् इत्युक्ते मानवजीवने मनः एकमेव वर्तते मनः मनः एकं वर्तते तस्मिन् मनसि अस्माकं अहङ्कार अहङ्कारात् उत्पन्ना या कामनाः सन्ति अपि च परमात्मानं प्रति या प्रीतिः अस्ति द्वयोः समावेशः न शक्यते एकस्मिन् मनसि द्वयोः समावेशः न शक्यते इत्युक्ते अस्माकम् अहङ्कार अहङ्कारेण उत्पन्ना या कामनाः सन्ति यदि तेषां वासः तेषां कामनानां वासः अस्माकं मनसि वर्तते कामनानां वासः वर्तते चेत् तदानीं परमात्मानां प्रति प्रीतिः तत्र नास्ति इत्युक्ते यदि सः परमात्मा अस्ति तदानीम् अस्माकं कामनाः न भवन्ति यदा अस्माकं तत्र अस्माकम् अहङ्कारेण उत्पन्नाः कामनाः सन्ति तत्र परमात्मा न वर्तते इति एव वास्तविक परीक्षा तदाधारेण वयं ज्ञातुं शक्नुमः अस्माकं भक्तिः भक्तिः कस्मिन् स्तरे अस्ति इति वयं ज्ञातुं शक्नुमः यदि कोऽपि चिन्तयति अहं नेता भवितुम् इच्छामि अहं नेता भवितुम् इच्छामि अहं परमात्मानं प्रति मम प्रीतिः अपि वर्तते इति सः चिन्तयति अहं नेता भवितुम् इच्छामि परमात्मानमपि अहमिच्छामि इति यदि सः चिन्तयति तर्हि सः वास्तविकः भक्तः नास्ति यतोहि तस्मिन् मनसि अहङ्कारेण उत्पन्ना इच्छा वर्तते उत्पन्ना इच्छा वर्तते यत अहं नेता भवितुम् इच्छामि इति तादृशी इ तादृशी इच्छा या प्रीतिः वर्तते परमात्मानं प्रति तस्यापेक्षया तादृशी इच्छा अधिका भवति इति कृत्वा तादृशः पुरुषः वास्तविकः भक्तः नास्ति एवं रीत्या अन्य कोऽपि चिन्तयति अहम् इदानीं मम मम कृते बहु धनम् अपेक्षितं वर्तते इति कोऽपि चिन्तयति अथवा मम इदानीम् इदानीम् अहं विवाहं कर्तुम् इच्छामि इति इच्छति अथवा अहं अन्यत् किमपि इच्छामि अहं गृहमिच्छामि अथवा अन्यत् लौकिकवस्तु यत्किमपि इच्छामि इति तस्य हृदि तादृशी इच्छा वर्तते चेत् तत्र परमात्मनः वासः नास्ति यदा तत्र अहं भावः नास्ति अहं भावः उत्पन्न अहं भावेन उत्पन्नः उत्पन्ना इच्छा नास्ति तदानीं तत्रेव तदानीमेव सः भक्तः भवति यदा स्वतन्त्रतया अहङ्कारेण उत्पन्ना इच्छा नास्ति तत्र परमात्मानं प्रति प्रीतिः वर्धयितुं शक्नुमः तर्हि यत्र अहङ्कारः प्रमुखरूपेण वर्तते यत्र अहङ्कारः प्रमुखरूपेण वर्तते तत्र परमात्मानः सहवासः न शक्यते यतो हि मानवः मानवस्य मनः एकं वर्तते यदा यदा अस्माकम् इच्छा बहु मुख्यरूपेण वर्तते तदानीं परमात्मनः प्राप्तेः इच्छा तत्र गौणीभूता गौणीभूता भवति यत्र लौकिकवस्तुनः प्राप्तेः विषये अस्माकं इच्छा प्रधानरूपेण वर्तते तदानीं परमात्मनः प्राप्तेः इच्छा गौणीभूता भवति तदानीं ता तादृश साधकस्य जीवने तत्र परमात्मनः प्राप्तिः न भवितुं शक्यते अस्य अर्थः एवं नास्ति यत् तत्र लोके यत्किमपि अस्ति तस्य त्यागः अस्माभिः करणीयः इति नास्ति इत्युक्ते अस्माकं कृते तत्र अस्माकं कृते तत्र किमस्ति गृहम् अस्ति परिवारः अस्ति बन्धुजनाः सन्ति सं, अस्माकं कार्यालये कार्यमपि अस्ति इत्युक्ते तत्र सर्वेषां त्यागः अपेक्षितः वा इति चेत् तथा नास्ति अस्माभिः लोके अस्माभिः वासः करणीयः तत्र यदा वयं वासः वासं कुर्मः तदानीं कथम् अस्माभिः उषितव्यः इति चेत् तत्र लोके उषित्वा तत्र परमात्मनः सेवा अस्माभिः करणीया अस्माकं दैनन्दिनदिने यद् किमपि कार्यमस्ति परिवारस्य कृते यद् दायित्वं वर्तते अथवा अत्र अन्यत् यत्किमपि कार्यं भवतु परन्तु यत्किमपि वयं कुर्मः तत्सर्वं परमात्मनः कृते सेवा वर्तते इति मम स्वतन्त्रतया न कापि इच्छा न इच्छा वर्तते एतदेव वयं वदामः तत्र एतदेव ब्रह्मचर्यभावः अस्ति ब्रह्मचर्यभावः एतदेव अस्ति इत्युक्ते यत्किमपि अहं करोमि तत्तु परमात्मनः सेवारूपेण अहं करोमि इत्युक्ते कदापि अहं परमात्मनः विस्मरणं कदापि न करोमि यत्किमपि अहं करोमि तत्सर्वम् अपि परमात्मानं विषय परमात्मानं प्रदानीकृत्य प्रदानीकृत्य यद्वयं कुर्मः तदानीं तत्र सेवा भवति तदानीम् अहङ्कारः कदापि प्रधानरूपेण न तिष्ठति यः साधकः अस्ति वास्तविकः भक्तः हा अस्ति तस्य हृदि एकाएव एव इच्छा वर्तते एका एव इच्छा सा का इच्छा इति चेत् अहं परमात्मानं तोषयितुम् इच्छामि इति ऐ वा परमात्मा अहं परमात्मानं तोषयितुम् इच्छामि इति तस्य जीवने एका एव इच्छा भवति एका एव मनसि आकाङ्क्षा भवति एका एव इच्छा भवति अन्यत् किमपि न अन्या इच्छा कदापि भवति यदा अन्या इच्छा आयाति मनसि तदानीं तत्र परमपुरुषस्य वासः न भवति इति वयम् अवगन्तुं शक्नुमः यः वास्तविकः भक्तः अस्ति तस्य हृदे अन्ये ये ये लौकिक इच्छाः सन्ति ते सर्वे अपि गौणीभूताः भवन्ति ते प्रधानरूपेण कदापि न तिष्ठन्ति यतोहि तत्र तस्य हृदि प्रेम केवलं एकस्य कृते एव तत्र प्रीतिः वर्तते न तु बहूनां विषये अथवा बहूनां मनुष्याणां विषये तस्य हृदि एकस्य कृते एव प्रीतिः वर्तते सा प्रीतिः परमात्मानः कृते एव इत्युक्ते एकस्मिन् एव समये परमा परमात्मनः कृते अपि प्रीतिः वर्तते अपि च मम हृदि अन्या अपि इच्छा वर्तते तस्य विषये अपि मम प्रीतिः वर्तते इति यदा अस्ति तदानीं सः तु वास्तविकः भक्तः कदापि न भवति अस्माकं हृदि वस्तुद्वयं कदापि न भवति यदा एक एकमेव वस्तु अस्ति परमात्मा इति एकमेव वस्तु अस्ति तस्य कृते एव अस्माकं गाढतया प्रीतिः वर्तते तदानीं सः वास्तविकः भक्तः अस्ति तत्र भक्तिमार्गः श्रेष्ठ श्रेष्ठमार्गः अस्ति तदर्थमेव शङ्कराचार्ये शङ्कराचार्येण अपि उक्तं मोक्षकारणसामग्र्यां भक्तिरेव गरीयसीति तेनापि उक्तमस्ति तेनापि अङ्गीकृतम् अस्ति अस्माभिः अस्माकं या भक्तिः वर्तते तस्य वर्धनम् अस्माभिः करणीयं न तु विषये इच्छा इच्छानां वर्धनम् अस्माभिः न करणीयं परन्तु परमात्मनः कृते या प्रीतिः वर्तते तस्य वर्धनम् अस्माभिः करणीयं तदेव वयं वास्तविकतया भक्तिः इति वयं वक्तुं शक्नुमः इत्युक्ते अस्माभिः प्रष्टव्यम् इत्युक्ते मम हृदि का इच्छा अस्ति इदानीम् अस्मिन् क्षणे अपि वयं प्रष्टुं शक्नुमः मम कृते का इच्छा अस्ति मम हृदि परमात्मनविषये आ... प्रीतिः अस्ति वा मम हृदि अन्या अन्या कापि इच्छा अस्ति वा इदानीं ओ बहिः बहिः गन्तव्यं तत्र किमपि क्रेतव्यं किमपि खादितव्यं किमपि करणीयम् इति एतादृशभिन्नभिन्न इच्छाः अस्माकं वर्तन्ते वा न न तु केवलं परमात्मनः कृते प्रीतिः वा इति अस्माभिः स्वयं प्रष्टव्यं यदि तत्र तादृशप्रश्नस्य उत्तरं लभ्यते तदानीं वयम् अवगन्तुं शक्नुमः ओ अहं वास्तविकतया भक्तः अस्मि वा न वा इति वयम् अवगन्तुं शक्नुमः यतोहि अस्माकं बहुकालपर्यन्तं पशुजीवनमेव जातं खलु इत्युक्ते इदानीमपि वयं पश्यामः चेत् जन्मनि अपि अस्माकं पशुजीवनमेव जातं बहुकालपर्यन्तम् एतावता अस्माभिः पशुजीवनमेव कुर्वन्तः स्मः इत्युक्ते सर्वदा धनस्य विषये चिन्तनम् अथवा मम मम यशः इत्यस्मिन् एव चिन्तनम् अस्ति सर्वदा इत्युक्ते वास्तविकतया भक्त भक्तिस्थानं अस्माभिः न प्राप्तं खलु तर्हि इदानीम् अस्माकम् अवसरः अस्ति इदानीम् अस्माकं मानवजीवनं लब्धम् अस्ति मानवधर्मः कः इति अस्माभिः ज्ञातमस्ति तर्हि इदानीं बहुकालपर्यन्तं पशुजीवनम् अस्माभिः व्यतीतम् इदानीम् अस्माकं जीवनं प्रतिदिनं न जानीमः कदा अस्माकम् अन्तिमदिनं भवति इति अस्माभिः कदापि न ज्ञायते इदानीम् अग्रिमक्षणम् अस्माकं जीवनस्य अन्तिमक्षणं भवितुमर्हति खलु तस्मिन् विषये वयं कदापि न चिन्तयामः वयं सर्वदा किं चिन्तयामः इत्युक्ते ओ मम जीवनं बहुकालपर्यन्तं भवति मम जीवनम् अग्रिमदिने अहं भवामि वा न वा इत्यस्मिन् विषये कदापि न चिन्तयामः वयं सर्वदा चिन्तयामः ओ अग्रिमदिने तु अहम् अवश्यमेव भवामि किमर्थं न भवामि अवश्यं भवामि अग्रिमक्षणे अवश्यं भवामि इति तथा एव अस्माकं विश्वासः वर्तते परन्तु वास्तविकतया तथा नास्ति खलु वयं जानीमः जीवनं कदा गच्छति इति वयं कदापि न वक्तुं शक्नुमः क्षणिकरूपेण इदानीम् अस्मि अग्रिमक्ष क्षणे अस्मि वा न इति कदापि न वक्तुं शक्नुमः इति कृत्वा अस्माकं जीवनस्य लक्ष्यं किम् इति चेत् भक्तेः वर्धनम् एव अस्माकं जीवनस्य अस्माकं जीवनस्य वास्तविकलक्ष्यमस्ति तदर्थमेव अस्माभिः उक्तं भक्तिः प्रेमस्वरूपिणी तर्हि भक्तिः इस् प्रेम प्रेमा। प्रेम तत्र कृते यद् आकर्षणं वर्तते तदेव भक्तिः अस्ति तर्हि भक्तेः वर्धनं कथं भवति इति चेत् इदानीम् अस्माकं कृते लौकिकवस्तूनि सन्ति तेषां विषये अस्माकम् आसक्तिः अस्ति तेषां विषये अस्माकम् आकर्षणम् अस्ति यथा तत्र लघु बालकः अस्ति तस्य हस्ते कार्यानस्य कुञ्चिका वर्तते कार् इदानीं तत्र मात्रा कुत्रचित् बहिः गन्तव्यं तस्य कृते कार्यानस्य कुञ्चिका आवश्यकी अस्ति तर्हि सा किं करोति अन्यत् किमपि तत्र कन्दुकं वा किमपि अन्यत् क्रीडनकं शिशोः हस्ते स्थापयति तदानीं तत्र शिशुः किं करोति एतत्तु इतोपि आकर्षकम् अस्ति इति कृत्वा तद् तु कुञ्चिकां त्यजति खलु कार्यानस्य कुञ्चिकां त्यजति तथैव अस्माभिः यदा तत्र भक्तेः वास्तविकः स्वादः भवति आस्वादः भवति तदानीं वयं किं कुर्मः इति चेत् सर्वं यत्किमपि अस्ति अस्माकं जीवने तत्सर्वं त्यजामः यतोहि तत् सर्वं क्षणिकमस्ति तेन तु न कोपि लाभः इति वयं यदा वास्तविकतया अवगच्छामः तदानीम् अस्माकं भक्तिः अवश्यमेव वर्धते इति अत्र भक्तेः प्राधान्यम् अत्र वक्तुम् इच्छामः इत्युक्ते अस्माकं लक्ष्यं किम् इति चेत् परमात्मनः कृते भक्तेः वर्धनम् अस्माभिः अवश्यं कर्तव्यं तर्हि भक्तिः बहु बहु मुख्य मुख्यविषयः अस्ति साधकस्य जीवने इत्युक्ते तत् अस्माभिः यत्नः करणीयः भक्तेः वर्धनार्थं यत्नः करणीयः इति अत्र उक्त्वा वयमग्रे अस्माकं करपत्रं प्रति गन्तुं शक्नुमः अत्र अस्माकम् अत्र एतावता यदुक्तं तस्य विषये कोऽपि प्रश्नः अस्ति वा ओके तर्हि इदानीम् अत्र अस्माकं करपत्रमस्ति ब्रह्म न ब्रह्म किम् इति अस्माकं विषयः अस्ति अस्माभिः अङ्गीकृ एकं वक्तुमिच्छामि ज्ञानभक्ति पक्षिणः द्वौ सपक्ष सौक् टु विङ्ग्स् आफ् द बर्ड् वन् इस् ज्ञान् वन् भक्ति वन् विदौट् अदर् इस् नाट् पक्षी स्टिल् केनाट् फ्लाय् सो द्वौ इति बहु आवश्यकम् अस्ति केवलं भक्ति यदि भक्तिः अस्ति किन्तु ज्ञान नास्ति तदपि परमपुरुष uh, uh, uh, प्रति न गन्तुं गच्छ शक्नुमः mm -hmm. अपि यदि ज्ञानम् अस्ति किन्तु भक्तिः नास्ति तदपि नीरस् भवति ज्ञान इति इत्युक्ते अत्र द्वयोः मेलनम् आवश्यकमस्ति ज्ञानभक्त्या अवश्यं अवश्यम् अत्र अस्माकं योगे योगशास्त्रे कथं वदामः इति चेत् ज्ञान यत्किमपि इत्युक्ते अस्माभिः किम् उक्तम् अत्र नैण्टि नैन् पर्सेण्ट् प्राक्टिस् वन् पर्सेण्ट् थियरि इति उक्तं ज्ञानं ज्ञानस्य अर्जनं भवति तदपि केवलम् अभ्यासार्थमेव अतः अत्र योगे ज्ञानस्य प्राधान्यं नास्ति योगे तु भक्तेः प्राधान्यं वर्तते ज्ञानम् आवश्यकं कियत्पर्यन्तम् इति चेत् तस्य व्यवहाररूपेण अस्माभिः आनेतव्यं तावत्पर्यन्तमेव ज्ञानम् अपेक्षितमस्ति इत्युक्ते केवलम् अत्र यत् यानि करपत्राणि सन्ति तत्र थी सृष्टिः अनन्तरं सर्वं यदस्ति तत्र केवलं वयं पठामः चेत् तेन मुक्तिः भवति वा इति चेत् तेन मुक्तिः न भवति योगशास्त्रे तु अत्र भक्तिः बहु मुख्या वर्तते ज्ञानं कियत्पर्यन्तम् आवश्यकम् इति चेत् तावत्पर्यन्तं ज्ञानमपेक्षितं ज्ञानम् अर्जयित्वा तस्य अभ्यासे अस्माभिः आनेतव्यम् इति एव अत्र वार्ता अस्ति केवलं ज्ञानेन मुक्तिः नास्ति इति अत्र अस्माकं विषयः अस्ति तत्र ज्ञानं यद्वयं प्राप्नुमः तदपि केवलम् अत्र अभ्यासार्थं तु इम्प्लिमेण्टेट् एव तत्र वयं पठामः यत्किमपि अत्र पठामः तदपि इम्प्लिमेण्टेशनार्थमेव इति अत्र अस्माकं विषयः अस्ति अस्तु समीचीनं तर्हि इदानीं ब्रह्म किम् अस्ति इति अत्र उक्तमस्ति ब्रह्म इति अत्र चैतन्यम् इति उक्तं ब्रह्मे अंश ब्रह्मणि अंशद्वयं वर्तते पुरुषः प्रकृतिः इति पुरुषः प्रकृतिः पुरुषः इत्युक्ते चैतन्यं प्रकृतिः इत्युक्ते तत्र अद्वितीय अद्वितीयबलम् अस्ति प्रकृतिः द्वयोः अविनाभावसम्बन्धः अस्ति द्वयोः पृथक्करणं न शक्यते इति अपि उक्तम् द्वयोः मिलित्वा ब्रह्म इति वयं वदामः तर्हि यदा तत्र निर्गुणब्रह्म सगुणब्रह्म इति अस्माभिः दृष्टं तत्र निर्गुणब्रह्मणि प्रकृतिः अपि अस्ति पुरुषः अपि अस्ति सर्वदा यत्र प्रकृतिः अपि भवति पुरुषः अपि भवति द्वयोः पृथक्करणं न शक्यते परन्तु निर्गुणब्रह्मणि प्रकृतिः अपि अस्ति परन्तु केनचित् कारणेन प्रकृतिः पुरुषं गुणान्वितं कर्तुं न शक्नोति तत्र सा भूता वर्तते इत्युक्ते तत्र बलहीना वर्तते प्रकृतिः पुरुषः अनुमतिं न ददाति इति कृत्वा निर्गुणब्रह्मणि सृष्टिः न भवति परन्तु सगुणब्रह्मणि यत्र पुरुषः अनुमतिं ददाति ददाति प्रकृतेः कृते तदानीं प्रकृतिः स्वकार्यं करोति सा स्वस्य गुणाः ये सन्ति सत्त्वरजो सत्त्वगुणः रजोगुणः तमोगुणः तैः गुणैः प्रकृतिः पुरुषं गुणान्वितं करोति तेन किं भवति इति चेत् तत्र पुरुषः एव जगत्रूपेण तत्र विवर्तते पुरुषः जगत् रूपेण विवर्तते एवं तत्र सृष्टिः भवति अस्माभिः एवमपि उक्तं यत् तत्र पुरुषः अपि अनादिः अनन्तसत्ता वर्तते प्रकृतिः अपि एवमेव वर्तते तर्हि अत्र जगतः कारणं किम् इति वयं पश्यामः चेत् जगतः उपादानकारणम् अत्र पुरुषः एव वर्तते सः एव अत्र मेडि मेटीरियल् कास्ट् भवति प्रकृतिः तत्र गौणीभूता वर्तते तत्र पुरुषस्य सहायं करोति तर्हि अस्माभिः उक्तं तत्र यदा सृष्टिः भवति तत्र प्रथमतया तत्र मनसः निर्माणं भवति मनसः त्रयः अंशाः सन्ति महत्तत्त्वम् अहं तत्त्वं चित्तम् इति त्रयः अंशाः सन्ति एते त्रयः अंशा अंशाः अपि स्वतन्त्राः न सन्ति एते अंशाः पुरुषं पुरुषम् आधारीकृत्य एव एते अंशाः सन्ति इत्युक्ते अन्ततो वयं गता चेत् सर्वस्य आधारः पुरुषः एव वर्तते पुरुषं विना किमपि नास्ति पुरुषः एव अस्य जगत्रूपेण विवर्तते प्रकृतिः तदर्थं सहायं करोति इति अस्माभिः दृष्टं तर्हि तत्र अस्माभिः उक्तं किम् इत्युक्ते तत्र ब्रह्मणः ब्रह्मा बहु सूक्ष्म वस्तु वर्तते बहुसूक्ष्मं वस्तु वर्तते तर्हि ब्रह्मणः मापनं तस्य आदिः नास्ति इत्युक्तं तस्य मापनं कर्तुं शक्यते वा इति चेत् तादृशयन्त्रं नास्ति लोके यत्किमपि पञ्चभूतैः निर्मितं तैः वस्तुभिः भ्रमणः मापनं न शक्यते तर्हि पञ्च पञ्चभूतानि विहाय तत्र मनः अपि वर्तते मनसा भ्रमणः मापनं शक्यते वा इति चेत् मनसापि भ्रह्मणः मापनं न शक्यते यतोहि मनसा भ्रमणः मापनम् अस्माभिः करणीयं चेत् तत्र अहं तत्त्वेनैव कर्तुं शक्नुमः परन्तु अहं तत्त्वस्य साक्षात् पुरुष पुरुषेण सह सम्पर्कः कदापि न भवति यदा तत्र साधनायाम् अहं तत्त्वं साधनां वयं कुर्मः तदा तदानीम् अहं तत्त्वं महत्तत्त्वे लीनं विलीनं भवति विलीनं भवति चेत् तदानीं तद् नास्ति अतः यद् यद् यद् यः अंशः कार्यं कर्तुं शक्नोति मनसः यः अंशः कार्यं कर्तुं शक्नोति तत्तु अहं तत्त्वं परन्तु अहं तत्त्वस्य भ्रम ब्रह्मणा सह साक्षात् सम्पर्कः नास्ति इति कृत्वा मनसा अपि ब्रह्मणः मापनं कर्तुं शक्नुमः अतः ब्रह्म ब्रह्म किय कियत् अस्ति तस्य परिमाणं किम् इति वयं कदापि अवगन्तुं न शक्नुमः मनसा अवगन्तुं न शक्नुमः भ्रमणः मापनं न शक्यते इति अस्माभिः उक्तं तर्हि एवम् तदनन्तरम् इत्युक्ते मनसः अपि सीमा वर्तते तस्य सामर्थ्यस्य विषये सीमा वर्तते इत्युक्ते यत् सर्वं कर्तुं न शक्नो शक्नोति मनः इत्युक्ते मनः अवगन्तुं शक्नोति यत् बाह्यतः अन्य वस्तु अस्ति इति अवगन्तुं शक्नोति यतोहि तदर्थमेव वयम वदामः खलु सर्वदा मम मनः इति वयं वदामः इत्युक्ते मनसः पृष्ठतः अन्य अन्या सत्ता वर्तते इति अस्माभिः मनसा शक्नुमः अन्या सत्ता वर्तते इति ज्ञातुं शक्नुमः परन्तु मनसः सामर्थ्यं वर्तते इति अस्माभिः उक्तं निर्गुणब्रह्मा तु गुणातीतः अस्ति तत्र गुणरहित रहितः वर्तते तत्र प्रकृतेः प्रभावः न भवति इति अस्माभिः उक्तं निर्गुणावस्थायाम् अपि प्रकृतिः सुप्ता नास्ति स जागृता एव अस्ति परन्तु केनचित् कारणेन पुरुषं प्रभावयितुं न शक्नोति तत् कारणं किम् इति चेत् पुरुषः बलवान् अस्ति प्रकृतिः बलहीना अस्ति तस्याम् अवस्थायां परन्तु सगुणावस्थायां तस्य बलम् अस्ति इति कृत्वा तत्र पुरुषः अनुमतिं ददाति इति कृत्वा तत्र पु प्रकृतिः पुरुषं गुणान्वितं करोति तर्हि तत्र परिदृश्यमानं जगत् तदानीमेव दृश्यते इति वयं वक्तुं शक्नुमः इत्युक्ते स इत्युक्ते सगुणब्रह्म निर्गुणब्रह्म इति अवस्थाद्वयम् इति अवस्थाद्वयम् इति वक्तुं शक्नुमः एकस्यैव एक एकायाः एकस्याः एव सत्तायाः अवस्थाद्वयम् इत्युक्ते वस्तुद्वयम् इति नास्ति यथा अस्माभिः उक्तं यता एका माता वर्तते चेत् ता भिन्नभिन्न कार्याणि स्वीक स्वीकरोति खलु गृहे सा माता अस्ति बहिः गच्छति चेत् सा वैद्या अस्ति तर्हि भिन्नसत्ता इति नास्ति एका सत्ता तस्य तस्याः तस्या अवस्थाद्वयम् एवमेव भ्रमणः अवस्थाद्वयं निर्गुणभ्रम सगुणभ्रम इति अवस्थाद्वयं वर्तते इति वक्तुं शक्नुमः ओके okay, इदानीं ततः अग्रे गन्तुं शक्नुमः कोऽपि प्रश्नः अस्ति वा एतावता ओके okay, इदानीं मम स्क्रीन् दृश्यते वा न इदानीं दृश्यते वा अस्तु विजया भगिनी भवते एव पठतु अग्रे अस्माभिः <laughs> सहुनब्रह्मणः अस्तित्वम् अङ्गीकर्तव्यम् यतः इयं सृष्टिः सहुनब्रह्मणः निर्मिता अथवा सहुनब्रह्मणः कारणात् इयं सृष्टिः पृष्टा वर्तते इति प्रतिक्षणे अस्माभिः द्रष्टुं शक्यते एतत् दर्शयति यत् सहुणब्रह्म अवस्थायां प्रकृतिः पुरुषं चोदयित्वा गुणान्वितं च करोति इति परिस्थितिद्वये एव प्रकृतिः पुरुषं गुणान्वितं कर्तुं श अर्हति सहुणब्रह्म अवस्थायां प्रकृतिः निर्गुणब्रह्मणः अपेक्षया बलवती स्यात् अथवा सगुण अवस्थायां पुरुषः प्रकृतेः अपेक्षया दुर्बलतरः स्यात् वयं जानीमः यत् प्रकृतिः विशिष्टत्व विशिष्टत्वम् अथवा अपूर्वशक्तिः अस्ति इति सा सर्वत्र आ, समान तीव्रतया उपस्थिता वर्तते तस्याः स्थूलना कयाचित् स्थूलशक्त्या सह शक्यते यथा उदाहरणत्वेन विद्युत् मैल् परिमितः दीर्घः तारः यः वर्तते तस्मिन् विद्युत् प्रवहति चेत् तारस्य प्रत्येकं बिन्दौ 440 हण्ड्रेड् अण्ड् फोर्टि ओल्ट् प्राप्यते अत्र चत्वारिंशत् अधिकचतुश्शतम् इति भवति भिन्नबिन्दुषु hmm. वोल्टेज् भिन्नं न भवति तथैव प्रकृतिः अद्वितीया शक्तिः सा सर्वत्र समानबलेन सदा वर्तमाना अस्ति सगुणब्रह्मणि तस्याः अधिकशक्तिः वर्तते इति प्रश्नो न उद्भवति सगुणब्रह्म अवस्थायां पुरुषकप्रकृतेः अपेक्षया दुर्बलतरः स्यात् अन्यथा सः प्रकृत्या चेदपि प्रकृत्या भवितुं न अर्हति पुरुषः अनन्तब्रह्मणि गणीभूतः अल्पूतः अल्पगणीभूतः च वर्तते अनन्तब्रह्मणः चैतन्यं सर्वत्र गुणान्वितं करोति अनेन कारणेन सृष्टिः उत्प अनन्तब्रह्मणः चैतन्यं सर्वत्र समानं चैतन्यं सर्वत्र समानं नास्ति यत्र यत्र चैतन्यं पुरुषः वा न्यूनगणीभूतः भवति तत्र प्रकृतिः पुरुषं दुर्बलं प्राप्य गुणान्वितं करोति अनेन कारणेन सृष्टिः उत्पद्यते प्रथमबिन्दुः प्रकृतिः अबला अस्ति अतः यत्र चैतन्यं गणीभूतं भवति तत्र पुरुषं गुणान्वितं कर्तुं न शक्यते पुरुषः तत्र निर्गुणः इति कृत्वा निर्गुणब्रह्म इति उच्यते <coughs> अस्माभिः सगुणब्रह्मणः अस्तित्वम् अङ्गीकर्तव्यं यतः इयं सृष्टिः सहुनब्रह्मणः निर्मिता अथवा सहुणब्रह्मणः कारणात् इयं सृष्टिः सृष्टा वर्तते इति प्रत्यक्षणे अस्माभिः द्रष्टुं शक्यते अत्र सहुनब्रह्मणः साधकः बहु मुख्यविषयम् अस्ति अत्र अस्तित्वम् अस्माकं कृते अङ्गीकर्तव्यम् एव अत्र सहुणब्रह्मणः विषये बहवः अत्र चित्रं भवति एतत् दृष्ट्वा कुत्रापि एतत् अभवत् अनन्तरं सः दृष्टवान् इति अस्ति एव अस्तित्वम् अङ्गीकर्तव्यम् यतः इयं सृष्टिः सगुणब्रह्मणः निर्मिता सगुणब्रह्मणेन एव एतत् सृष्टिः अभवत् अथवा सगुणब्रह्मणः कारणात् इयं सृष्टिः सृष्टा वर्तते इति प्रतिक्षणे अस्माभिः द्रष्टुं शक्यते एतत् सर्वत्र एतत् तिष्ठति वयं अत्र द्रष्टुं शक्यते एतत् सहुणब्रह्मणः कारणात् एव एतत् सृष्टिः अभवत् इति अत्र द्रष्टुं शक्यते एव एतत् दर्शयति यत् सहुणब्रह्म अवस्थायां प्रकृतिः पुरुषं चोदयित्वा अत्र सहुणब्रह्म अवस्थायाम् एव अत्र प्रकृतिः पुरुषम् अत्र प्रेरणया एव पुरुषस्य प्रेरणया एव अत्र दुर्बल दुर्बलतरः पुरुषः प्रकृतेः प्रकृतिः पुरुषं चोदयित्वा गुणान्वितं भुना, च करोति इति अतः एव अत्र गुणा गुणाः भवितुम् अर्हति किमर्थं चेत् अत्र प्रकृतिः एव पुरुषम् अत्र प्रेरणया एव एतत् अभवत् इति परिस्थितिः द्वये एव प्रकृतिः पुरुषं गुणान्वितं कर्तुम् अर्हति इदानीमेव दृष्टवन्तः इदानीमत्र सगुण अवस्थायां प्रकृतिः सगुण अवस्थायां प्रकृतिः निर्गुणब्रह्मणः अपेक्षया बलवती स्यात् निर्गुणब्रह्म इति वयम् पश्येमि अत्र सहुण सहुण अवस्थायामेव प्रकृतिः बलवत् भवति अत्र निर्गुण निर्गुणब्रह्मणः अपेक्षया अत्र इदानीं सगुणब्रह्म अवस्थायाम् एतदेव सगुणब्रह्म एव अत्र बलवती भवति इति अथवा सगुणब्रह्मणि सगुणब्रह्मणि प्रकृतिः बलवती भवति निर्गुणब्रह्मणि प्रकृतिः बलवती न भवति इत्यर्थम् आम् आम् आम् निर्गुणब्रह्मणि अत्र यदा वयं द्रष्टुं शक्यते चेत् अत्र बलवती न भवति इति सगुणब्रह्मम् एव बलवत् भवति इति खलु महोदय न सगुणब्रह्मणि प्रकृतिः बलवती भवति निर्गुणब्रह्मणि प्रकृतिः बलवती न भवति अस्तु वयं जानीमः यत् प्रकृतिः विशिष्टत्वम् अथवा अपूर्वशक्तिः अस्ति विशिष्टतत्त्वं विशिष्टतत्त्वं अथवा अपूर्वशक्तिः अस्ति सा तु बलम् अस्ति खलु आम् आम् प्रकृतिः अस्ति एव अत्र अस्य विशिष्टत्वं विशिष्टतत्त्वम् अनन्तरम् अपूर्वशक्तिः प्रकृत्या वर्तते इति सा सर्वत्र समान तीव्रता एव अपेक्षिता उपस्थितिः भवति अत्र सर्वत्र प्रकृतिः समान समानतया uh, एव सर्वत्र तिष्ठति इति तस्याः तुलना कयाचित् स्थूलशक्त्या सः शक्यते स्थूलं uh, सूक्ष्मम् इति uh, अस्ति अत्र प्रकृत्याः शक्तिः स्थूलशक्त्या सः वर्तते इति शक्यते इति न पश्यतु पश्यतु तथा नास्ति ना, ना ना ना, इत्युक्ते प्रकृत्याः शक्तिः कथं भवति इति चेत् तत् कथम् अवगन्तुं शक्नुमः इति चेत् उदाहरणरूपेण वयं पश्यामः चेत् यदा तत्र विद्युत् वर्तते तर्हि विद्युत् इत्युक्ते एकस्मिन् वयर् मध्ये विद्युत् वर्तते तर्हि तत्र विद्युत् प्रत्येकं बिन्दौ विद्युत् समानरीत्या अस्ति खलु इत्युक्ते एकत्र भिन्न वोल्टेज अस्ति अन्यत्र भिन्न वोल्टेज् इति नास्ति खलु एवं प्रकृतेः शक्तिः सर्वत्र समाना वर्तते ः सर्वत्र बदर समाना वर्तते कुत्रचित् कुत्रचित् तस्य कार्यं भवति कुत्रचित् कार्यं किमर्थं न भवति इति अग्रे उच्यते वदतु मैल् परि परिमितः अत्र दीर्घः तारः यः वर्तते तस्मिन् विद्युत् प्रवहति चेत् तारस्य प्रत्येकं बिन्दौ फोर् हण्ड्रेड् प्राप्य प्राप्यते यदा सवनब्रह्मं समानरीत्या प्रकृति यदा प्रकृतिः समानरीत्या सर्वत्र तिष्ठति अत्र उदाहरणरूपेण वयम् अत्र विद्युत् स्वीकुर्मः चेत् अत्र एकस्मिन् स्थले विद्युत् लघु अस्ति अन्यस्मिन् स्थले दीर्घमस्ति बृहत् इति वक्तुं न शक्यते एव सर्वत्र समान वोल्टेज् एव तिष्ठति तदेव प्रकृतिः अद्वितिया शक्तिः द्वितीयाशक्तिः इति अद्वितिया अद्वितीयाशक्तिः एव प्रकृतिः सा सर्वत्र समानबलेन तदा वर्तमाना अस्ति एव इदानीमेव उदाहरणरूपेण वयं दृष्टवन्तः समानतया सर्वत्र तिष्ठति इति सगुणब्रह्मणि तस्याः अधिकशक्तिः वर्तते इति प्रश्ने न उद्भवति कुत्रचित् अत्र अधिकशक्तिः अस्ति लघुशक्तिः इति अत्र प्रश्नः अत्र न उदेति एव तगुणब्रह्म अवस्थायां पुरुषः प्रकृतेः अपेक्षया दा, दुर्बलतरः स्यात् इदानीं इदानीमेव दृष्टवन्तः दुर्बलतरम् अस्ति एव यत्र तगुणब्रह्म अवस्थायामेव अत्र पुरुषः प्रकृतेः द्वयोः मध्ये अपेक्षया दुर्बलतरः स्यात् परन्तु अन्यथा सः प्रकृत्या चोदिता भवितुं न अर्हति इदानीम् अत्र प्रकृत्या वयं अत्र प्रेरणार्थं प्रकृत्या पुरुषः भवति इति इदानीम् अत्र प्रकृत्या चोदितः भवितुं न अर्हति इति पुरुषः अनन्तब्रह्मणि गणीभूतः इति अस्ति अल्पगणीभूतः च वर्तते अत्र गणीभूतः अपि वर् अर्हति अनन्तरम् अल्पगणीभूतः अपि भवितुम् अर्हति पुरुषः Uh, इदानीम् अनन्तब्रह्मणः चैतन्यं सर्वत्र समानं नास्ति अनन्तब्रह्मणः भ्रमणम् अनन्तमिति वयं पूर्वं तत्र चैतन्यं सर्वत्र समानं नास्ति इति यत्र यत्र चैतन्यं पुरुषः वा न्यूनगणीभूतः भवति तत्र प्रकृतिः पुरुषं दुर्बलं प्राप्य गुणान्वितं करोति अतः एव अत्र बहवः गुणाः सन्ति एव एकस्मिन् सले रजोगुणम् सले स्थले अत्र दुर्बलं प्राप्य एव अत्र गुणान्वितं करोति इदानीम् अनेन कारणेन सृष्टिः उत्पद्यते अत्र चैतन्यं यत्र तिष्ठति तत् कारणतः एव अत्र अनेन कारणेन एव सृष्टिः उत्पद्यते प्रकृतिः अबला अस्ति अतः यत्र चैतन्यं घनीभूतं भवति तत्र पुरुषं गुणान्वितं कर्तुं न शक्यते पुरुषः अबला बला न बलं नास्ति इति अतः एव अत्र चैतन्यगणीभूतं भवति तत्र पुरुषं गुणान्वितं कर्तुं न शक्नोति यत्र प्रकृतिः अबला भवति तत् समये पुरुषन् अपि गुणान्वितं कर्तुं न शक्यते इति पुरुषः तत्र निर्गुणः इति कृत्वा निर्गु निर्गुणब्रह्मम् उच्यते अत्र पुरुषः पुरुष पुरुषस्य विषये अत्र किमपि गुणः नास्ति इति वयं स्वीकृत्य अत्र अन्यनाम अपि अस्ति निर्गुणब्रह्मत्वं निर्गुणब्रह्मणः निर्गुणब्रह्म इति अत्र वक्तुं शक्यते एव धन्यवादः तर्हि इदानीं तर्हि इदानीं यदा पुरुषः गुणान्वितः भवति प्रकृत्या तदानीं सगुणब्रह्म इति वयं वदामः तदानीं जगतः सृष्टिः भवति सगुणब्रह्मावस्थायाम् अस्माकम् अस्तित्वे वयं जगत् द्रष्टुं शक्नुमः खलु अत्र जगति वयं वसामः वयं जगत् द्रष्टुं शक्नुमः वयं सर्वं द्रष्टुं शक्नुमः अत्र जगति अन्ये प्राणिनः सन्ति अन्ये पक्षिणः सन्ति अन्ये पशवः सन्ति तेषां सर्वेषामपि दर्शनमस्ति अस्माकं तर्हि इयमेव सगुणब्रह्मावस्था सगुणब्रह्मावस्थायां जगत् वर्तते जगतः अनुभवः भवति इयमेव व्यक्तावस्था इति वयं वदामः सगुणब्रह्मावस्था एव व्यक्तावस्था निर्गुणब्रह्मावस्था अव्यक्तावस्था अन्म्यानिफेस्टेड् स्टेट् अन्मेनफेस्टेड् स्टेट् यत्र व्यक् व्यक्तीकरणम् अस्ति सगुणब्रह्मावस्थायां तर्हि तत्र सर्वं वयं द्रष्टुं शक्नुमः जगद्द्रष्टुं शक्नुमः निर्गुणब्रह्मवस्थायामपि पुरुषः प्रकृतिः द्वयोः अपि वासः वर्तते सगुणब्रह्मवस्थायामपि द्वयोः वासः वर्तते परन्तु निर्गुणब्रह्मवस्थायां जगत् नास्ति किमर्थं चेत् प्रकृतिः पुरुषं गुणान्वितं कर्तुं न शक्नो शक्नोति पुरुषः तस्याम् अवस्थायां गुणातीतः वर्तते निर्गुणावस्थायाम् इति कृत्वा प्रकृतिः पुरुषं गुणान्वितं कर्तुं न शक्नोति परन्तु सगुणब्रह्मवस्थायां कथञ्चित् प्रकृतिः पुरुषं गुणान्वितं कर्तुं शक्नोति सा अवस्था व्यक्तावस्था तर्हि अत्र कारणद्वयं भवितुम् अर्हति किमर्थं प्रकृतिः पुरुषं गुणान्वितं न कर्तुं शक्नोति निर्गुणावस्थायां पर, परन्तु कर्तुं शक्नोति सगुणावस्थायाम् इति चेत् सगुणावस्थायां प्रकृतिः पुरुषस्य अपेक्षया बलवती अस्ति इति कृत्वा सा पुरुषं गुणान्वितं कर्तुं शक्नोति अथवा वयं वक्तुं शक्नुमः पुरुषः बलहीनः अस्ति सगुण सगुणब्रह्मवस्थायाम् इति कृत्वा सः गुणान्वितः भवति इति अपि वक्तुं शक्नुमः तर्हि वास वास्तविकतया प्रकृतिः पुरुषस्य अपेक्षया बलवती अस्ति इत्युक्ते पुरुषः अनुमतिं ददाति इत्युक्ते पुरुषः सगुणब्रह्मवस्थायां चिन्तयति एकोऽहं बहु स्याम् इति च चिन्तयति एकः <laughs> अहम् इदानीं बहु भवितुम् इच्छामि इति यदा चिन्तयति तदानीं सः अनुमतिं ददाति ददाति प्रकृतेः कृते इति कृत्वा प्रकृतिः बलवती भवति पुरुषस्य अनुमतिं विना सा बलवती न भवितुमर्हति यद्यपि वयं वदामः प्रकृतिः पुरुषस्य अपेक्षया बलवती अस्ति इति वयं वदामः परन्तु तत्र वास्तविकतया के केवलम् वदामः परन्तु वास्तविकतया पुरुषः एव अनुमतिं ददाति तदर्थम् एव वयं वदामः शक्तिः सा शिवस्य शक्तिः शक्तिः सर्वदा पुरुषस्य नियन्त्रणे भवति यदा पुरुषः अनुमतिं ददाति तदानीं सा किमपि कर्तुं शक्नोति परन्तु यदा पुरुषः अनुमतिं न ददाति तदानीं सा किमपि न कर्तुं शक्नोति इत्युक्ते यद्यपि प्रकृतिः बलवतीति वयं वदामः वस्तुतः बलवती कथं बलवती इति प्रकृतिः पुरुषः अनुमतिं ददाति इति कृत्वा सा बलवती यदि पुरुष पुरुषस्य एकोऽ बहुस्याम् इति सङ्कल्पः नास्ति तदानीं कदापि सृष्टिः न भवितुम् अर्हति तदा तदानीं प्रकृतिः किमपि न कर्तुं शक्नोति इति अस्माभिः अवगन्तव्यं निर्गुणभ्रह्म अवस्थायां प्रकृतिः बलवती नास्ति बलहीना अस्ति पुरुषः बलवान् अस्ति यतोहि तस्य सङ्कल्पः नासीत् किमपि कर्तुं न इच्छति तस्याम् इति कृत्वा तत्र किमपि नास्ति तत्र <Sess -tale> तर्हि तत्र निर्गुणवस्थायां वयं किं वक्तुम् इच्छक्नुमः इति चेत् पुरुषः बलवान् अस्ति प्रकृतिः बलहीना अस्ति इति वक्तुं शक्नुमः पुरुषे पुरुषेण अनुमतिः न दत्ता इति कृत्वा प्र प्रकृत्या किमपि कर्तुं न शक्यते इति वक्तुं शक्नुमः प्रकृतिः अद्वितीया अस्ति सा सर्वत्र समानरीत्या वर्तते इत्युक्ते एकत्र तस्य बलम् अधिकमस्ति अन्यत्र बलं नास्ति इति नास्ति निर्गुणवस्थायामपि प्रकृतिः अस्ति तस्याः गुणाः अपि सन्ति तस्याः तीव्रता अपि समानरीत्या अस्ति परन्तु तस्याम् अवस्थायां सा किमपि कर्तुं न शक्नुमः तदर्थमेव तत्र उदाहरणरूपेण तारस्य उदाहरणं दत्तं तारे विद्युतः गमनं यदा भवति सर्वत्र वोल्टेज् समानरीत्या भवति भिन्नभिन्नस्थलेषु भिन्नभिन्नबिन्दौ तत्र वोल्टेज् भिन्नभिन्नरीत्या अस्ति इति वक्तुं न शक्नुमः सर्वत्र समानशक्तिः वर्तते एवं प्रकृते प्रकृतेः शक्तिः समाना एव वर्तते सर्वत्र इत्युक्ते यद्यपि बल बलवती बलहीना इति वयं वदामः परन्तु वास्तविकतया तस्याः शक्तिः समानरीत्या अस्ति परन्तु यदा अनुमतिः प्रकृ पुरुषेण अनुमतिः दीयते तदानीं प्रकृतेः प्रभावः भवति नो चेत् भवति इति अस्माभिः अवगन्तव्यम् अस्तु प्रश्नः आसीत् वा भगिन्या सरिता भगिन्या हा आम भगिनी मम प्रश्नः अस्ति यदा पुरुषः निर्गुणावस्थायाम् अस्ति तदा तस्य मनसि सङ्कल्पम् एव भवितुं न अर्हति तथा तदा, तदा सः कथं प्रकृतिम् अनुमतिं ददाति इति निर्गुणावस्थायां सङ्कल्पः नास्ति निर्गुणावस्थायां सः एवमेव अस्ति सः न इच्छति यद् जगद् भवतु इति सः न इच्छति इति कृत्वा तथैव अस्ति परन्तु सगुणब्रह्म अवस्थायां तस्य मनसि सङ्कल्पः आयाति प्रश्नः कः इदानीं सगुणावस्थायां तु यदा प्रकृत्याः भावः भवति तदैव सः सगुण अवस्थायाम् आयाति अन्यथा तु निर्गुणवस्थायाम् एव तिष्ठति इति mm. मम अभिप्रायः तदा सः कथं प्रकृतिम् अनुमतिं वा न अनुमतिं वा कथं शक्नोति इति इत्युक्ते सगुणावस्थां प्रा, प्राप्य एव अनुमतिं दा, दातुं शक्नोति इति वदति न सगुणावस्था निर्गुणावस्थायां तु किमपि कर्तुं न शक्नोति न तस्य मनसि सङ्कल्पमपि भवितुं न अर्हति प्रकृतिमपि अनुमतिं वा न अनुमतिं वा किमपि द दातुं न शक्नोति तस्य अस्तित्वमपि न जानाति तदा कथं प्रकृतिम् अनुमतिं ददाति वा न ददाति इति इत्युक्ते तत्र तत्र पुरुषः इति यद्वयं वदामः पुरुषः निर्गुणावस्थायां सत्यं स किमपि कर्तुं न शक्नोति परन्तु इत्युक्ते अस्तित्वमपि न जानाति तथापि तत्र सः सङ्कल्पं तु कर्तुं शक्नोति इत्युक्ते सङ्कल्पं कर्तुं मनः आवश्यक मम मनः आवश्यकमिति न तस्य सङ्कल्पं कर्तुं सङ्कल्प सङ्कल्पार्थं मनसः आवश्यकता नास्ति तर्हि यद्यपि तस्य मनः नास्ति अस्तित्वमपि न जानाति तत्सर्वम् अस्ति परन्तु स तस्य तत्तु ज्ञानं ज्ञानरूपेण अस्ति खलु चैतन्यं ज्ञानरूपेण अस्ति इति कृत्वा तस्य सङ्कल्पं भवितुमर्हति अनुमतिं दातुं शक्नोति पुरुषः अनुमतिं दातुं शक्नोति पुरुषः सर्वं, mm -hmm. <Lau> <a> <tema> सर्वं, सर्वं कर्तुं शक्नोति यदा इच्छति तदा कर्तुं शक्नोति इत्युक्ते यदा तत् पुरुषः इच्छति जगद् भवतु इति इच्छा तस्य तस्य भवति तदानीं प्रकृतिः किमपि करोति तदानीं सृष्टिः आयाति तदानीं मनः आयाति तदानीम् अस्तित्वम् आयाति सर्वं आयाति परन्तु पुरुषः सङ्कल्पं कर्तुं न शक्नोति सङ्कल्पार्थं मनसः आवश्यकता अस्ति इति नास्ति नो चेत् तत्र परिदृश्यमानं जगत् न भवति खलु अस्माकं पुरतः जगत् जगत् वर्तते जगत् वर्तते इति वयम् अवगन्तुं शक्नुमः पुरुषेण अनुमतिः दत्ता इति वयम् अवगन्तुं शक्नुमः तर्हि सगुणब्रह्म अवस्था अवस्थां प्राप्य एव अनुमतिः दत्ता इति नास्ति निर्गुण ब्रह्मावस्थायाम् अनुमतिः न दत्ता सगुण सगुणब्रह्मावस्थायां पुरुषेण अनुमति दत्ता कथं दत्ता इति चेत् तस्य सङ्कल्पमात्रेण अनुमति दत्ता सङ्कल्पमात्रेण अनुमतिः दत्ता इत्युक्ते सङ्कल्पार्थं मनसः आवश्यकता नास्ति इत्येव विषयः अस्ति ओके अस्तु प्रकृतेः शक्तिः समानरीत्या सर्वत्र वर्तते इत्युक्ते सा बलहीना दुर्बला अन्यत्र बलवती इति तथा नास्ति परन्तु तत्र पुरुषः एकोऽहं बहु स्याम् इति सङ्कल्पं यदा करोति तदानीं प्रकृतिः प्रकृतेः कृते अनुमतिः दत्ता केवलं सङ्कल्पं सङ्कल्पं यदा करोति तदानीं प्रकृतेः कृते अनुमति दत्ता तदानीं प्रकृतिः सर्वं करोति तदानीं पुरुषः जगत्रूपेण परिवर्तते इदानीं वयम् अग्रे पश्यामः कथम् एतत् सर्वम् अस्ति इति किञ्चित् इतोपि अग्रे पश्यामः चेत् इतोपि स्पष्टता भवति भवत्याः प्रश्नस्य विषये अपि वयम् अवगन्तुं शक्नुमः एतत् सर्वं वास्तविकतया परमपुरुषस्य चित्ते एव एतत् सर्वं भवति एतत् जगत् सर्वं परमपुरुषस्य चित्ते एव भवति तत् कथं भवति किञ्चित् अग्रे पश्यामः इतः अग्रे स्पष्टं भवति इति मन्ये ओके अग्रे गच्छामः ब्रह्म अनन्तं वर्तते तस्य परम निर्गुण निर्गुणावस्था यत्र यत्र अनन्तः पुरुषः निर्गुणब्रह्मणि अल्पघनीभूतः भवति तत्र सः प्रकृतयः चोदितः सगुणब्रह्म इति वयं प्राप्नुमः निश्चयेन तदा सगुणब्रह्म निर्गुणान्तर् निर्गुणान्तर्गतं वर्तते अहम् तत्त्वं सागरे महान् हिमपर्वतः एव वा अस्ति वायुमण्डलस्य असन्तुल असन्तुलनात् समुत्तरस्य एकः भागः शीताकुलेन हिमपर्वतः भवति परन्तु शेषं जलं मूलावस्थायाम् एव तथैव यत्र यत्र पुरुषे प्रकृतिप्रभावात् निर्गुणब्रह्मणि सः न्यूनः सघुनः भवति तत्र सः गुणान्वित अवस्थां प्राप्य सगुणब्रह्म भवति परन्तु शेषः तु निर्गुणः एव तिष्ठति सगुणब्रह्म तस्मात् निर्गुणब्रह्म अन्तर्गतं वर्तते अत्र ब्रह्मस्य परमवस्था निर्गुणावस्था एव वर्तते यदा सः ब्रह्मणस्य परं हा परमवस्था निर्गुणावस्था एव अस्ति सः तु अनन्त अवस्था अस्ति तत्र निर्गुणब्रह्म एव कुत, कुत्रचित् स्थाने अल्पघनीभूता भवति अपि च कुत्र कस्मिन् स्थाने सघनघनीभूता भवति यदा सः प्रकृतेः प्रचोदितः प्रभावितः भवति तदा सगुणब्रह्म इति स्थितिः वर्तते त सः सगुणब्रह्मस्थितिः निर्गुण अवस्थायाम् एव तस्मिन् एव अवस्थायाम् एक लघुरूपेण सः स्थितिः वर्तते निर्गुणब्रह्म तु अनन्तं वर्तते परन्तु सगुणब्रह्म तस्मिन् अव निर्गुणब्रह्मणि एव किञ्चित् वर्तते यथा महान सागरा वर्तते तत्र वायुमंडलस्य प्रभावेण एकस्मिन् भागे हिम दृश्यते तत्र शीत शीतस्य प्रभावेन हिम वर्तते परन्तु शेषजलं मूलावस्थायाम् एव वर्तते तथैव निर्गुणब्रह्मणि सगुणब्रह्म कुत्रचित् स्थाने प्रकृतयः प्रभावेण वर्तते निर्गुणब्रह्म तु अनन्तरूपेण सर्वत्र वर्तते सगुणब्रह्म तस्मिन् एव किञ्चित् आं समीचीनं भगिनी सम्यक्तया उक्तवती इत्युक्ते तत्र सगुणभ्रह्म निर्गुणब्रम कथम् अवगन्तुं शक्नुमः इति चेत् एकः एकं समुद्रं स्वीकुर्मः चेत् समुद्रे सर्वत्र जलं वर्तते परन्तु केषुचित् स्थलेषु हिमपर्वतः तत्र तत्र किं वातावरणस्य वायुमण्डलस्य यदा प्रभावः भवति तदानीं तत्र हिमपर्वतः शीताकुलः हिमपर्वतः भवति खलु परन्तु अन्यत्र सर्वत्र शेष तत्र शेष शेषे जलमेव वर्तते इति वयं पश्यामः बहुत्र जलं वर्तते परन्तु केषुचित् स्थलेषु तत्र हिमपर्वतः दृश्यते यथा तत्ता तत्र पुरुष ब्रह्म वर्तते ब्रह्म सर्वत्र वर्तते परन्तु केषुचित् स्थलेषु प्रकृतेः प्रभावेन तत्र सृष्टिः दृश्यते इति तद् तदुदाहरणं वयं स्वीकुर्मः चेत् सम्यक्तया अवगन्तुं शक्नुमः सर्वत्र निर्गुणः एव तिष्ठति पुरुषः परन्तु केषुचित् स्थलेषु प्रकृतेः प्रभावेन सगुणरूपेण सः भवति अस्ति तर्हि इदानीं किञ्चित् अग्रे पठामः तत्र किं प्रिया भगिनी पठितुमिच्छति वा नमस्ते भगिनि सगुणः पुरुषः वा गुणान्वितचैतन्यतन्यस्य प्रकृत्या यत्र पुरुषः गुणान्वितः सः सह, सह सगुणः इत्युच्यते अस्माभिः पूर्वम् दृष्टम् यत् परमावस्थायाम् ब्रह्म वा ब्रह्मस्वरूपम् गुणरहितचैतन्यम् अस्ति इति अतः सगुणब्रह्म वा गुणसहितचैतन्यम् वा ब्रह्मस्वरूपस्य परमावस्था नास्ति तथापि ब्रह्म इत्युच्यते यतो हि प्रकृतिपुरुषौ द्वौ अपि स्तः पुनः समुद्रे हिमपर्वतस्य उदाहरणम् गृहीत्वा सगुणब्रह्म किमिति व्याख्यातुम् शक्यते वायमण्डलस्य विविधायाः कारणात् समुद्रस्य किञ्चित् विविधतायाः विविधतायाः विविधतायाः विविधतायाः कारणात् समुद्रस्य किञ्चित् जलम् हिमपर्वतरूपेण परिवर्तते यदि वयम् समुद्रस्य निर्गुणब्रह्मणा सह तुलनाम् कुर्मः तर्हि हिमपर्वतस्य सगुणब्रह्मणा सह तुल् तुलना तस् तुलना स्यात् पुरुषेण सह यः वायमण्डलः जलम् घनीति तस्य तुलना प्रकृत्या सह च भवति समुद्रस्य हिमः अपरिवर्तितम् जलम् च केवलम् जलस्य द्वौ भिन्नौ आकरौ स्तः केवलम् केवलं भेदः अस्ति यत् केषुचित् स्थानेषु वाता वातावरणम् वातावरणम् वातावरणम् हिमरूपेण परिवर्तयितुम् समर्थम् भवति समुद्रस्य अन्येषु भागेषु वायुमण्डलम् हिमरूपेण परिवर्तयितुं न शक्नोति हिमः भगिनि तावत्पर्यन्तम् वदतु तावत्पर्यन्तं वदतु कृपया आम् भगिनि किञ्चित् उपरि आगच्छामि धन्यवादः सो तत्र सगुणब्रह्म निर्गुणब्रमः ब्रह्म इति नपुंसकलिङ्गशब्दः ब्रह्म ब्रह्म सगुणपुरुषः अस्ति अत्र अत्र so, so, um, सगुणपुरुषः गुणरहितचैतन्यस्य निर्गुण पुरुषस्य अन्तः भवति यथा यत्र प्रथमं यत्र पुरुषः गुणान्वितः अस्ति सः सगुणः सगुणः ब्रह्मणः न सः सगुणः इत्युच्यते सगुणब्रह्म इति ब्रह्म इति उच्यते सो अस्माभिः पूर्वमेव दृष्टवन्तः गुणरहितचैतन्यम् ब्रह्मस्वरूपम् अस्ति नो चेत् परमावस्थायाम् ब्रह्म अस्ति इति पूर्वमेव दृष्टवन्तः सो so, अतः सगुणब्रह्म वा गुणसहितचैतन्यं वा इति पृथक् पृथक् नास्ति ब्रह्मस्वरूपस्य परमावस्था नास्ति तथापि था ब्रह्म एवं ब्रह्म एव, एव तद् इति उच्यते यतो हि प्रकृतिपुरुषौ द्वौ अपि स्तः mm. प्रकृतिपुरुषौ द्वौ अस्ति किन्तु भिन्न नास्ति उदाहरणरूपेण ना हिम हिमपर्वतस्य समुद्रस्य अति ना, भिन्न नास्ति इति न ना, भिन्न भिन्नौ भिन्नौ एव खलु प्रकृतिः अपि वर्तते पुरुषः अपि वर्तते उभयत्र उभय अवस्थायामपि द्वयोः वासः अस्ति प्रकृतिः अपि अस्ति पुरुषः अपि अस्ति उभयत्र खलु पुनः पठामि भगिनि भा, तत् सम्यक् रीत्या मया न अतः सगुणब्रह्म वा गुणसहितचैतन्यं वा ब्रह्मस्वरूपस्य परमावस्था नास्ति तथापि ब्रह्म इत्युच्यते यतोहि प्रकृतिपुरुषौ द्वौ अपि स्तः तत् सम्यक् रीत्या मया न आगतम् अहं वदामि किञ्चित् तत्र निर्गुणब्रह्म एव परमावस्था अस्ति इत्युक्ते निर्गुणब्रह्म परमावस्था अस्ति अस्माकं सर्वेषां लक्ष्यं किं निर्गुणब्रह्म अवस्थायाः प्राप्तिः एव खलु तदेव अस्माकं लक्ष्यमस्ति निर्गुणब्रह्मावस्था परमावस्था अस्ति सगुणब्रह्मावस्था परमावस्था नास्ति तत्र सगुणब्रह्मणि पुरुषः गुणान्वितः अस्ति तत्र गुणसहितचैतन्यं गुणेन प्रभावितं चैतन्यं तथापि तत्र ब्रह्म इति ब्रह्म इति कस्य नाम अस्ति प्रकृतिपुरुषः द्वयोः मेलनं कृत्वा ब्रह्म इति नामकरणं दत्तं खलु अस्माभिः अतः सगुणब्रह्म इति वयं वदामः चेत् अत्र ब्रह्म इति वयं वदामः पुरुषः अपि अस्ति प्रकृतिः अपि अस्ति सगुणब्रह्म निर्गुणब्रह्मणः अपेक्षया भिन् भिन्न भिन्नं कथम् अस्ति इति चेत् अत्र पुरुषः अपि अस्ति प्रकृतिः अपि अस्ति परन्तु पुरुषः गुणान्वितः भवति हीस् इम्फाक्टेड् बै द गुणास् आफ़् द प्रकृतिः इति तावान् भेदः अस्ति अत्र तदेव उक्तमत्र अवगतं वा मुद्रे हिमपर्वतस्य उदाहरणं गृहीत्वा सगुणब्रह्म किमिति व्याख्यातुं शक्यते सो यत् वायु वायुमण्डलस्य वायु इति भवेत् वायुमण्डलस्य वायुमण्डलस्य विविधा विविधता वि विविधतायाः कारणात् समुद्रस्य किञ्चित् जलं हिमपर्वतरूपेण परिवर्तते यदि वयं समुद्रस्य निर्गुणभ्रमया सह तुलनां कुर्मः तर्हि हिम हिमपर्वतस्य सगुणभ्रम सह तुलनास्य सो so, तत्र uh, समुद्रस्य किञ्चित् भागं uh, हिम uh, हिमपर्वतरूपेण भवति ऐस्बर्ग् इति uh, रूपेण भवति अन्य किञ्चित् जलमेव भवति सो तत्र कस्मिन् स्थाने हिमपर्वरूपेण अस्ति तत् सगुणब्रह्म अपि च सगुणब्रह्म भ्रमणा सह तुलना भवस्यात भवेत। भव स्यात् भवेत् सगुणब्रमणि पुरुषेण सह हिमः तुल्यः तत्र यः यः वायुमण्डलः वायुमण्डलः जलं घनीकरोति तस्य तुलना प्रकृत्या सह च भवति सो तत्र रूप तत्र भागद्वयम् अस्ति एकमस्ति हिमपर्वतः समुद्रे हिमपर्वतः अस्ति एकमस्ति साक्षात् समुद्रस्य हिमपर्वतरूपम् अन्यत् यह कारणेन यः कार्य कर्ता भवति हिमपर्वतरूपपरिवर्तनस्य तत् वायुमण्डलम् अस्ति सो तत्र वायुमण्डलस्य तुलना प्रकृति प्रकृतिया सह अभवत् सकृ प्रकृत्या सह अस्ति समुद्र हिममण्डल हिमं हिमपर्वतस्य समुद्रस्य हिमपर्वतस्य रूपं सगुणब्रह्मस्य सह सब् सह क्षमता सगुणब्रह्मणा सह तुलना अस्ति सो so, सो um, <coughs> so, सागरस्य अघनीभूतं जलं निर्गुणब्रह्मणि पुरुषस्य सङ्केतः सो so, समुद्रे कुत्रचित् कुत्र जलं जलरूपेण एव भवति तत् निर्गुणब्रह्मस्य ब्रह्मण ब्रह्मणा सह तुलना अस्ति तत्र भगिनि भगिनि बहु समीचीनभगिनी धन्यवादः बहु सम्यक्तया उक्तवती इदानीं किञ्चित् सरला भगिनी भवती एव अन्तिमभागं स्वीकृत्य वदतु केवलं जलस्य परिवर्तितं परिवर्तितं रूपं भवति परन्तु वयं तत् जलमिति वक्तुं न शक्नुमः केवलं परिवर्तितं जलरूपमिति स्वीकरणीयं भवति तथैव वयं सगुणब्रह्म परब्रह्म अथवा ब्रह्मस्वरूपमिति वक्तुं न शक्नुमः सगुणब्रह्म केवलं ब्रह्मस्वरूपस्य अन्यदशा एव अतः ब्रह्मस्वरूपस्य वा परब्रह्मण वा साक्षात्काराय निर्गुणब्रह्म ज्ञातव्यं भवति सगुणब्रह्म अनुभूतिमात्रेण परम परमावस्थायाः परमा प्राप्तिपर्यन्तं वयं न गच्छामः यतः सगुणब्रह्म केवलं परमपदस्य अन्या अस्ति एव इदानीं पुनः स्पष्टीकरोति निर्गुणब्रह्म सगुणब्रह्म तयोः कः भेदः अस्ति निर्गुणब्रह्म इति अस्ति तस्य घने रूपे तिष्ठति किन्तु तत् क गुणः गुणाति सः अस्ति यत् तत्र बलवती नास्ति ब्रह्म बलवत् बलवत् बलवान् अस्ति इति अस्ति यदि किमपि कार्य सगुण निर्गुणब्रह्मस्य प्रकृत्याः प्रभावेन यत् प्रभावः यद्भवति तत् सगुणब्रह्म इति भवति सगुणब्रह्म तत् इति सगुणब्रह्म गुणवत् भवति गुणवान् भवति यत् गुणवान् भवति तस्य वयं तुलना जल समुद्रजलस्य हिमरूपेण कर्तुं शक्नुमः हिमवत् इति यत् तत्र गुणब्रह्म इति अस्माभिः द्रष्टुं शक्नु अस्माभिः दृश्यते हिम हेमखण्ड यत् सागरे जलं यत् अस्ति तत् निर्गुणब्रह्म इत्यस्य तुलना भवति शेषजल यत् निर्गुणब्रह्मस्य अनन्तम् अस्ति तत् अनन्तमस्ति इति अस्ति ब्रह्मस्वरूप यत् वयं द्रष्टुं शक्नुमः या इति यथा इति एक्सिडेण्टल् uh, डेफिनेशन् वा यत् अस्ति क्रियेटर् uh, प्रिसर्वेटर् अपि यदि वदामः यत् स्रष्टा अस्ति uh, अपि uh, भर्ता अस्ति जगतस्य जगतः स्रष्टा भ्रष्ट भर्ता जगत् लीनं करोति इति अत्र तत्र इति गुणा गुणवत् अस्ति तत् तत् अतः सगुणब्रह्म इति वयं वदामः ब्रह्माविष्णुमहेश इति वयं वक्तुं शक्नुमः किन्तु निर्गुणब्रह्म इति कोऽपि तत्र गुणः नास्ति तस्मिन् कोऽपि कार्यं न भवति कारणकी प्रकृतिः तत्र प्रभावं न कर्तुं शक्नोति प्र प्रकृत्या प्रभावेन यथा वयं पूर्वं दृष्टवन्तः समष्टिः अपि अस्ति यस्य वयं दृष्टवन्तः बहवः पर्यावस्थित नामानि सन्ति यथा भूमाचैतन्यं सगुणब्रह्म इति वा महत्त ता समष्टं महत्तत्त्वम् इति यदि वयं वदामः इति भवतुं शक्नोति तदनन्तरं तस्य यथा व्यष्टिरूपेण वयं जानीमः महतत्त्वम् अहं तत्त्वं चित्त इति यत् रूपं भवति तथैव समष्टिरूपेण शगुणब्रह्मस्य अपि रूपम् आगच्छति मतत्त्वं वा अहं तत्त्वं वा चित्तम् इति सगु सो इति अपि भवति किन्तु वयं अहं चिन्तयामि अग्रे आगच्छति कथं व्यष्टि समष्टि तयोः तुलना भवति प्रत्येकस्तरे इदानीं वयं दृष्टवन्तः यद् आहत्य इति अस्ति ब्रह्म यदि प्रकृत्या प्रभावेण प्रदर्शितं भवति तत्र सगुणब्रह्म वदामः यदि प्रकृतिप्रभावः नास्ति ्रह्म निर्गुणब्रह्म इति वदामः साधु भगिनि आं भगिनि समीचीनं सम्यक् इत्येव अस्ति तत्र अवस्थाद्वयम् इति वर्तते तत्र अवगमनं कथं भवति इति अत्र दत्तमस्ति इत्युक्ते इति केवलम् अवगमनार्थमेव एवं दत्तमस्ति वस्तुतः ब्रह्म इति यद्वयं वदामः प्रकृतिपुरुषः इति सत्ताद्वयं नास्ति इत्युक्ते तयोः तयोः अवीनाभाव सम्बन्धः वर्तते खलु अतः इयं प्रकृतिः अयं पुरुषः इति तथा नास्ति वस्तुतः अवगमनार्थम् एवं दत्तमस्ति सगुणावस्था निर्गुणावस्था इति अवस्थाद्वयं अवस्था वर्तते तस्य अवगमनं कथं भवितुम् अर्हति इति चेत् एकं सागरं स्वीकुर्मः चेत् तत्र तस्मिन् सागरे केषुचित् स्थलेषु तत्र पर्वतरूपेण हिमरूपेण परिवर्तनं जातं वायुमण्डलस्य प्रभावेन, अन्यत्र तु जलं तथा एव तिष्ठति तत्र अन्यत्र यत्र जलं तिष्ठति तथैव तिष्ठति तद् निर्गुण अवस्था इति वक्तुं शक्नुमः यत्र हिमरूपेण परिवर्तनं जातं तत्तु सगुणावस्था इति वक्तुं शक्नुमः तत्र वायुमण्डलस्य प्रभावेण जातम् इति वायुमण्डलः प्रकृतेः शक्तिः इति वक्तुं शक्नुमः एवं वयम् अव शक्नुमः अन्ततो गत्वा सर्वं जलमेव अस्ति खलु तर्हि सर्वं तत्र निर्गुणावस्था एव तद् निर्गुणावस्था एव इदानीं किञ्चित् विवर्त विवर्तते सगुणरूपेण विवर्तते अस्माकं जीवनस्य लक्ष्यं किम् इति चेत् परमावस्थायाः प्राप्तिः परमावस्था का इति चेत् निर्गुणावस्था एव परमावस्था तादृश प्राप्तिः एव अस्माकं लक्ष्यम् सगुणावस्था परमावस्था नास्ति सगुणावस्थायाः प्राप्तिः अपि सुलभा नास्ति सुलभा नास्ति निर्गुणावस्थायाः प्राप्तिः अपि सुलभा नास्ति परन्तु अस्माकं जीवनस्य लक्ष्यमस्ति मोक्षः मोक्षः तु निर्गुणावस्था अस्ति मुक्तिः इत्युक्ते सगुणावस्था सगुणावस्था मुक्तिः यदा जीवन जीवनकाले योगद्वारा यदा वयं तत्र साधनां कृत्वा समाधिं प्राप्नुमः तदानीं तत्र वेदद्वयं वर्तते समाधि समाधि समाधेः अपि वेदद्वयं वर्तते तदे तादेव सः तदेव सा, तदे सा एव तत्र मृत्युकाले तत्र एव वयं वदामः मोक्षः मुक्तिः इति वयं वदामः अस्य विषये इतोपि किञ्चित् अग्रिमसप्ताहे स्पष्टीकरोमि इदानीं समयः अतीतः तत्र मुक्तिः मोक्षः इति अस्ति अपि च समाधिः अस्ति निर्विकल्पसमाधिः स्वविकल्पसमाधिः स्वविकल्पसमाधिः यद् यद्वदामः तत्र तत्र तु तत्र अस्माकं मनः तत्र भूमामनसा सह ऐक्यं यदा भवति तदानीं तत्र सविकल्पसमाधिः इति वदामः निर्विकल्पसमाधौ मनः एव न तिष्ठति मनः न तिष्ठति तदानीं तु तत्र निर्विकल्पसमाधिः इति वयं वदामः तदेव तत्र मृत्युकाले वयं मुक्तिः इति वदामः अथवा तत्र मोक्षः इति वयं वदामः अस्य विषये किञ्चित् इतोपि अग्रिमसप्ताहे स्वीकरोमि ऐ मीन् इदानीं समयः अधीतः कोऽपि प्रश्नः अस्ति वा अत्र भगिनि धन्यवादः पूर्वं वयं दृष्टवन्तः अवस्थाद्वयं जागृतराम सुप्तराम इति समीचीनम् उदाहरणमासीत् हा दन्यवाद हा समीचीनं सम्यक् तथैव अस्तु तर्हि अत्र श्रवणं कुर्मः धन्यवादः नमस्कारः धन्यवादः भगिनी धन्यवादः नमस्कारः धन्यवादः